भगवद्गीता चाप्टर् वर्षत् वन् टु टेन् अध त्रयोदशोऽध्यायः अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ये तद्वेदितुमिच्छामिज्ञानं ज्येयं च केचव श्रीभगवानुवाच शरीरं कौन्तेय क्षेत्रमित्यभिधीयते एतद्योगे पितं प्रासु क्षेत्रज्ञम् चादिमाम् विद्धि सर्वक्षेत्रेषु बाध क्षेत्रक्षेत्रज्ञयोर्ज्ञानम् यस्तम् मदम् मम तत्क्षेत्रं यश्च यादृश यचिदायि यदश्च यत् स च यो यत् प्रभावश्च तत्समासे न मे तृणो ऋषुभिर्बहुधा गीतं महाभूतान्यहङ्कारो बुद्धिद्रव्यक्रमेव च इन्द्रियाणि दशैकम् च पञ्चकेन्द्रियगोचराः इच्छा द्वेष सुखम् दुःखम् सङ्खादश्चेतनादृतिः एतत्क्षेत्रम् समासेन स अमानित्वमदम्भित्वमहिंसाक्षान्दिरार्जवम् आचार्योपासनम् शौजम् स्थैर्यमात्मविनिग्रहः इन्द्रियार्थेषु वैराग्यमनसंकार एव च जन्म मृत्युजरव्याधिदुःखदोषानुदर्शनम् विश्वङ्गत्यं च समचित्तत्वमिष्ठानिष्ठोपपत्तिषु भगवद्गीता चाप्टर् तर्टीन् वर्षे लेवन् टु ट्वेन्टि मयि चानन्ययोगेन भक्तिरव्यधिचारिणी विवित्तदेशसेवित्वमरधिर्जनसंसदि अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनं एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ञात्वा मृदमश्नुते अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते सर्वदा पाणिपादं तत्सर्वदोक्षिशिरोमुखं सर्वदा श्रुतिमल्लोगे सर्वमावृत्य तिष्ठति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् अशक्रं सर्वभृच्च निर्गुणं गुणभोपृ च बहिरन्दश्च भूतानामचरं चरमेव च सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्दिगे च द अविभक्तं च भूतेषु भूतभर्तृ च तज्ज्ञेयं ग्रजिष्णुप्रभविष्णु च ज्योतिषामपि तज्ज्योतिस्तमसत्परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्टिदम् यदि क्षेत्रं तदा ज्ञानं ज्ञेयं चोक्लं समासदः मद्भक्तये तद्विज्ञाय मद्भावायोपपद्यते प्रकृतिं पुरुषं चैव विद्यनादि उभाव विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् भगवद्गीता चाप्टर् तर्टीन् वर्षस् ट्वेण्टि वन् टु तर्टि कार्यकारणकर्तृत्वे हेतुप्रकृतिरुच्यते पुरुषसुखदुःखानां भोक्तृत्वे हेतुरुच्यते पुरुषप्रकृतिस्तो हि भुङ्क्रे प्रकृतिजान् गुणान् कारणं गुणसङ्गोस्य सदसद्योनिजन्मसु उभद्रस्तानुमन्ता च भर्ता भोक्लामहेश्वरः परमात्मेदि परः य एवं वेति पुरुषं प्रकृतिं च गुणैः सह वर्तमानो विना स भूयोऽ विजायते ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये त्वेवमजानन्दश्रुत्वा नेभ्य उपासदे तेऽपि चदितरन्त्येव मृत्युं श्रुतिपरायणाः यावत् सञ्जायदे किञ्चित् सत्त्वं स्थावरजङ्गमं क्षेत्रक्षेत्रज्ञ संयोगात् तद्विद्धि भरदर्शभ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं विनश्यत् स्वविनश्यन्दं यः पश्यति समं पश्यन् हि सर्वत्र समवस्थितमीश्वरं न हि नस्त्यात्मनात्मानं ततो यादि परां गतिं प्रकृत्यैव च सर्वशः यः पश्यति तदात्मानमकर्तारं भगवद्गीता चाप्टर् तर्टीन् वर्षस् तर्टि वन् टु तर्टि फैव् यदा भूधभृदग्भावमेकस्थमनुपश्यति तदेव जविस्तारं ब्रह्म सम्बध्यते तदा अनादित्वान्निर्गुणत्वात् शरीरस्थोऽभिकौन्तेयनकरोदि न लिभ्यते यथा सर्वगदं सौक्ष्म्यादाकाशं नोपलिभ्यते दे। सर्वत्रावस्थितो देहे तदात्मा नोपलिभ्यते दे। यथा प्रकाशयत्येह कृष्णं लोकमिमं रविः क्षेत्रं क्षेत्री तथा कृष्णं प्रकाशयदि भारदा क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा बोधप्रकृतिमोक्षं च ये ॐ तत्सत् इति श्रीमद्भगवद्गीतासु त्रयोदशोऽध्यायः